नमस्ते सर्वेभ्यः नमस्कारः अस्माकं मार्गः न वर्तते तत्र दीर्घः एव अवकाशः अस्माभिः स्वीकृतः द्वा सप्ताहद्वयात्मकः अवकाशः परन्तु इदानीं भवतु तत्र तत्र अचिरात् एव तत्र अन्येपि होलिडेस् आगच्छन्ति इति मन्ये तथापि इदानीं यावत् इदानीं कालः वर्तते तावत् एव पठामः भवतु इदानीं तत्र वयं कुत्र स्मः इति चेत् वसतः प्रथमं सूत्रम् एव अस्माभिः तत्र प्रथमं सूत्रमिति न परन्तु तत्र सर्वस्य ग्रन्थस्य आदौ तत्र सर्वप्रथमं पदार्थाः सप्तपदार्थाः सर्वे तत्र उपस्थापिताः तदनन्तरं द्रव्य द्रव्यं पदार्थः द्रव्यपदार्थः अवसरप्राप्तः वर्तते तत्र एव वस्तुतः इदानीं प्रतिद्रव्यं वयम् इदानीं गच्छामः तत्र पृथिवी नाम आप् नाम आपः नाम काः इति तथा एव गच्छामः इदानीं कालदिक् आत् तत्र कालदिकात्मनांसि इति चत्वारः तत्र अन्ते उपस्थिताः अथवा चत्वारि चत्वारः एव अन्ये अन्ते उपस्थिताः सन्ति तत्र कालः दिक् अपि दृष्ट इति मन्ये तदनन्तरम् इदानीम् आत्म मनश्च आगच्छतः इदानीं तत्र उभयत्र नाम काले च दिशि च उभयत्रा अस्माभिः दृष्टं यत् उभयत्र तत्र कश्चन नूतनः प्रकारः नूतना रीतिः रीतिः काश्च काश्चन स्वीकृतः अस्माकं स्वीकृता ग्रन्थकृता तत्र व्यवहारः व्यवहारव्यवहारव्यवहारहेतुत्वेन पदार्थः उपस्थितः द्रव्य द्रव्यद्वयं तथा उपस्थितं नाम तत्र यत् व्यवहारजनकं कश्चन यतोहि व्यवहारः लोकसिद्धः व्यवहारः दृश्यते तत्र काल उपस्थि नाम काल उद्देशकव्यवहारः अथवा दिक् उद्देशः व्यवहारः अचीतादिव्यवहारः अथवा तत्र प्राची प्राच्यादिव्यवहारः यः दृश्य यः श्रूयते यत् यः सर्वैः अनुभूयते तस्या व्यवहारस्य कश्चन तत्र हेतुः अपेक्षितः वर्तते नाम किञ्चन किञ्चन मूलम् अपेक्षितम् यत् आश्रित्य एव अयं व्यवहारः अस्माभिः सर्वैः अनुभूयते अत एव इदानीं व्यवहारहेतुकत्वेन व्यवहारहेतुत्वेन एतत् द्वयम् अपि द्रव्यम् नाम खालद्रव्यम् अपि च दिग्द्रव्यम् उभयम् एव उपस्थितम् तत्र व्यवहारः अपि कश्चन परिभाषिकः पदार्थः वर्तते तत्र ज्ञानजनक ज्ञानजनकशब्दप्रयोगः इति व्यवहारस्यापि तत्र लक्षणम् अस्माभिः दृष्टम् एतद् लक्षणानुसारम् तत्र सर्वम् उपस्थापितम् नाम निरूपणम् कृतम् इदानीम् पू तत्र पूर्वादिव्यवहारहेतुः कालः इति कृत्वा तत्र हेतुपदार्थः इत्यादिकम् व्यवहारपदार्थस्यापि सम्पूर्णम् सम्पूर्णम् लाक्षणम् मनसि निधाय तत्र दीर्घा कथा अस्माभिः एकसमासरूपा दीर्घाकथा अपि तत्र सर्वं तत्र प्रदर्शितम् भवतु तथा एव दि दि दिक् समये दिक् निरूपणसमये तथा एव कृतं तथा इदानीं मया किं चिन्तितं तत्र आगमनकाले वस्तुतः अन्यस्मिन् कस्यांश्चित् कक्षायां कदाचित् कश्चन एकं प्रश्नं कृतवान् सः प्रश्नः तां प्रश्नाम् उद् उद्दिश्य एव किञ्चित् वदामि बहु तत्र वक्तव्यं नास्ति केवलं वदामि तत्र कश्चन केनचित् कदाचित् तत्र संशयः उपस्थापितः वस्तुतः आकाशः च अथवा आकाशं च दिक् च तत्र भेदः अस्ति वा न वा अथवा एतत् एकम् एव वर्तते तत्र भिन्नत्वेन उपस्थितम् इति कृत्वा भिन्नाौ एव स्तः इति सर्वप्रथमं जनीमः तत्र नैकैः तयोः भेदः क्रियते तत्र भेदः नाम कः तत्र अस्ति चेत् वसतः महान् भेदः तयोः अस्ति आकाशः अथवा आकाशम् यत् तत् पञ्च पञ्चमहाभूतेषु एकतमं वर्तते सर्वे जनेयुः पञ्चमहाभूतानि सन्ति महाभूतानि सन्ति इदानीं सङ्ख्याप्रक्रियायां महाभूतानि इदानीं उपस्थापितानि ता तानि पञ्चमहाभूता भूतानि वस्तुतः सर्वैः दार्शनिकैः कथञ्चित् अङ्गीकृताः इदानीं भवतु नाम सङ्ख्या सङ्ख्याशास्त्रे तत्र तत्र प्रकृति प्रकृतिप्रक्रियायाम् इमे इमे पञ्च आगताः इमानि पञ्चानि आगतानि परन्तु तथा एकस्य तथा वा अन्यथा वा परन्तु सर्वैः दर्शनैः दार्शनिकैः प्रायः शास्त्रीयैः सर्वेषु शास्त्रेषु प्रायः इमानि पञ्च एव स्वीकृतानि अतः एव यत् किं भवति मटीरियल् वर्त् यत् वर्तते तस्य एकभागः एव आकाशम् अथवा आकाशः वर्तते सः इदानीं कदाचित् आङ्ग्लानुवादाः यदा अस्माभिः पच्यन्ते तदा कदाचित् ईथर् इति किञ्चित् तथा एव उच्यते नाम यः यथा यथा एर् वर्तते यथा विन्द् वर्तते यथा वोतर् वर्तते एर्त् वा तथा एव कश्चन अचीन्द्रियः वर्तते लोक तत्र अस्या एव मूर्तस्य लोकस्य कश्चन एकभागः वर्तते सः आकाश आकाश इति पादेन व्यवह्रियते बतु अचीन्द्रियः सन् तथापि सर्वैः सर्वैः अङ्गीक्रियते अथवा सर्वैः अनुभूयते इव यतो हि शब्दः इदं न्यायिकैः तथा एव स्वीक्रियते शब्दः यथा यथा सर्वेषां गुणानां कश्चन अधिकारणं कश्चन किञ्च किञ्चन अधिकारणम् अपेक्षितं वर्तते तथा एव शब्दगुणस्य किञ्चन अधिक अधिकारणम् अपेक्षितम् अस्ति नाम किञ्चन अपेक्षितं वर्तते यस्मिन् सोऽयं शाब्दः वर्तते कोयाम् अस्ति यस्मिन् शाब्दः सः ई अथवा सः आकाशः आकाशं वा इति न्यायायिकैः वस्तुतः अनेकैः शास्त्रीयैः अनेकैः दार्शनिकैः नाम दर्शनान्तरेषु न केवलं न्याय न्यायवैशेषशास्त्रे परं दर्शनान्तरेषु तथा एव स्वीक्रियते एतद् आकाशं वर्तते इदानीं पञ्चमहाभूतं पञ्चमहाभूतभूत तत्र एक एकतमः एकतम एकतमं वर्तते अथवा एकतमः वर्तते आकाशः वा आकाशं वा भवतु नाम परन्तु दिक् इति तत्र गच्छामः चेत् दिक् इति केवलं तत्र भवतु तत्र आङ्ग्लभाषायां किं वदामि तथापि न जानामि परन्तु यथा स्पेस् वा अथवा केवलं स्पेशल् डैमेन्शन् वा वर्तते इदानीं यथा यथा तत्र एवं इदानीं यत् अस्माभिः तत्र किञ्चित् प्राक् नाम प्राक् प्राक् प्राग्दिशि अस्ति किञ्चित् दक्षिणदिशि अस्ति किञ्चित् सवि सेव्यदिशि अस्ति इति यतो यतः एतत् अस्माभिः ज्ञातुम् अपि च वक्तुं शक्यम् अस्ति तस्य हेतुः वर्तते यत् वयं सर्वे कुत्रचित् स्पेस् मध्ये स्मः नाम तत्र स्पेस् मध्ये ईथर् वा भवतु एयर् वा भवतु इति अन्यः अन्यः प्रश्नः परन्तु स्पेस् स्पेस् मात्रं नाम आम् तत्र डैमेन्शन् स्पेस् आफ़् डैमेन्शन् मात्रं यत् तदेव दिक् इति पदेन व्यवह्रियते नैिकैः यथा एव कालः तत्र कालः समये अस्माभिः उक्तं भवतु तत्र कालस्यापि का कालस्य यथा दिक् तथा काल अपि कालोऽपि केवलम् तत्र कश्चन उपाधिम् कश्चन तत्र उपाधिम् स्वीकृत्य ज्ञातुं शक्यते यतोहि स्पेस् वा टैम् वा स्वयम् एव ज्ञातुम् एव वर्तते तव अशक्यौ एव वर्तेते अतः एव कां काञ्चन उपाधिं स्वीकृत्य एव तत्र किञ्चित् वक्तुं शक्नुमः भवतु प्रीवियस्टेरियर् अथवा रैट् लेफ्त् ईस्ट् वेस्त् इत्यादिकं तावेव तत्र कामपि उपाधिं स्वीकृत्य एतत् वक्तुं शक्यते यतोहि साक्षात् भवतु नाम एकम एकः एकम् तत्र यथा उद् उदाहरणम् सर्वत्र क्रियते अथवा भवतु यदि भारतदेशः यः इदानीं तत्र यूरोप् महादेश महदेशम् उद्दिश्य एतत्तु ईस्ट् मध्ये वर्तते इदानीं जापान् महदेशम् उद्दिश्य जपान् देशम् उद्दिश्य तत्तु वेस्ट् मध्ये वर्तते अथ एव साक्षात् ज्ञायते तत्र सर्वं यत् दिक् उद्देशकम् दिक् उद्देशकं यत् दिक् उद्देशिकानि पदानि यानि अस्माभिः प्रयुज्यन्ते तानि तत्र किं परमार्थिकानि अथवा तेषाम् अर्थः कश्चन परमार्थिक अर्थः नास्ति यतोहि सर्वथा सापेक्षिकः एव तेषाम् अर्थः इदानीं यत् तादृशं तूलनं कर्तुं शक्यते किञ्चित् वेस्ट् मध्ये अस्ति किञ्चित् यत् अस्माकं तादृशम् इन्द्रियम् वर्तते एषः अनुभावः यत् कर्तुं शक्यः तस्या एव तस्या एव अनुभावस्य प्र हेतुः वर्तते तस्या एव अनुभवस्य मूलं वर्तते अधिष्ठानं वर्तते दिक् इति दिक् नामकः कश्चन भिन्नः कश्चन अतिरिक्तः कश्चन अन्यपदार्थ अन्यद्राव्य अतिरिक्तः कश्चन नूतनः पदार्थः अथवा किञ्चन नूतनद्रव्यं वर्तते इति भवतु इति यद्यपि एषः प्रश्नः तत् अत्र के किमपि न कृतः तथापि इदानीं तादृशसन्देहः अस्ति एव कदाचित् कदाचित् उत्तरकाले उत्पत्स्यति वा यत् कृत्वा एतत् न उक्तं भवतु इदानीम् अग्रे गच्छामः इदानीं दिक्कालात्ममानांसि तत्र काल दिक्कालात्ममनांसि इदानीं दिक्कालौ भावृष्टौ इदानीम् आत्मा इति द्रव्यं तत्र अष्टमं द्रव्यं सम तत्र प्राप्तं वस्तुतः तत्र किञ्चित् अस्माभिः पतितं परन्तु भवतु यतो हि अवकाशः दीर्घः स्वीकृतः एव पुनारेकवारं तत्र आत्म आत्मनिरूपणं आत्मपदार्थनिरूपणं तत्र आरम्भतः एव पठामः एतद्वर्तते पेज् सिक्स्टि टु मध्ये अत्र एव आरभ्यते सिक्स् सिक्स्टि टु उपरि एव एतत् नूतन नूतना पाङ्क्तिः मूलपाङ्क्तिः तत्र तत्र प्रदर्शिता तस्य तदनन्तरं निरूपणं व्याख्यानं वा क्रियते अस्माकम् ग्रन्थे भवतु ओके तर्हि तत्र एव आरभामहे प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु अन्यथा अत्र एव रभामहे तर्हि आपणाभगिनी आरम्भं करोति वा आम् आं महोदय नमस्ते महोदय श्रूयते वा सम्यक् श्रूयते नमस्ते महोदय बहुकालं जातं भवतु सम्यक् परन्तु अस्माभिः एतावता किं किञ्चित् तत्र अत्यन्तं महत्वपूर्णं वा अत्यन्तं क्लिष्टं वा न पतितं मि मन्ये अतः एव स्वागतं भगिनि कृपया किञ्चित् बहु कार्यम् आसीत् तस्मात् योजयितुं न शक्तवती तत्र चिन्ता मास्तु यत् आगतवती आम् पठामि अहम् एतत् खलु ज्ञानवान् उक्त्वा ज्ञानादिकरणमिति कुतः उक्तं भवतु प्रमाणुसार ज्ञानादिकरणम् इति कुतः ज्ञानवान् इति अनुक्त्वा भवतु इदानीं तदेव शीर्षकं वर्तते इदानीं तस्य शीर्षकस्य अर्थः अग्रे एव अवगम्य अवगमिष्यते कृपया तत्र पत शीर्षकम् इत्युक्ते शीर्षकं टाय्टो वर्तते पृष्टामि उद्देशक्रमानुसारमात्मानं निरूपयति ज्ञानादिकरणमात्मा सह द्विविधः जीवात्मा परमात्मा च इति तत्र ईश्वरः सर्वज्ञः जीवस्तु प्रतिशरीरं नित्यः च इति इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानादिकरणमात्मा इति कथनम् पूर्व उक्तरीत्या सम्बन्धविशेषसूचनाय ग्रहण्याय पुनरपि सः अर्थः प्रतिपाद्यते कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तद् तद् उपाधौ च वर्तन्ते ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते आ, अत्र ज्ञानं तदनन्तरम् आत्मविषये उक्तं कालिकसम्बन्धे एव ज्ञानं प्रतिपद्यते कालिकसम्बन्धे ज्ञानं प्रतिपद्यते आत्मा अस्ति द्विविधम् इति उक्तं एकः एकः परमात्मा ईश्वरः सः एव ईश्वरः सर्वज्ञः एकः एव अस्ति तदनन्तरम् अस्ति जीवात्मा प्रतिशरीरं भिन्नभिन्न रूपेण भवति तत् जीवात्मा ग्रहणदार्ढ्र्याय पुनरपि सः अर्थः प्रतिपाद्यते ग्रहणदार्ढ्याय मया न अवगतं तत् पदं कालनिरूपणे दर्शितरीत्या काले यता यथा उक्तं पूर्वं काल, कालस्य निरूपणं यदा यथा यदा वयं कृतवन्तः तथा यथा उक्तं पदार्थ विषये विषये कालिकसम्बन्धे महाकाले तद् उपाधौ वर्तन्ते ज्ञानमपि कालिकसम्बन्धे ज्ञा न्या, तद् र्जाक् इदानीं तत्र प्रथमं यत् वाक्यं वर्तते नाम सर्वप्रथमं तत्र बोर्ड् सैज़् मध्ये यत् वर्तते तत् किं स्थूलाक्षरैः यत् मुद्रितं तत्तु तत्र मूलग्रान्थः नाम तर्कसङ्ग्रहः तर्कसङ्ग्रह सङ्ग्रहस्य एव पङ्क्तिः वर्तते भवतु तत्र यथा सम्मानं सूत्रं वा भवतु अथवा भवतु तर्कसङ्ग्रहग्रन्थः एव इदानीं ज्ञानादिकरणम् आत्मा वा भवतु तदनन्तरं तस्य प्रभेदः कृतः प्रभेदे कृते तत्र उक्तं भवतु एकः एक एकतरः वर्तते जीवात्मा अन्यतरः जीवा किं जीव परमात्मा परमात्मा च भवतु तत्रा भगिनि अत्यन्तं समीचीनम् उक्तवती इदानीं या चर्चा तत्र आरभ्यते तस्याः चर्चा तस्याः चर्चायाः विषयः वर्तते वस्तुतः केवलं प्रथमं वाक्यं वा अथवा वाक्यैकदेशः प्रथमः एव वा ज्ञानादिकारणम् आत्मा इति अमुम् तत्र ग्रन्थभागं स्वीकृत्य इदानीं सः चर्चां करोति इदानीम् अत्र अत्र कः तत्र कामपि समस्याम् इव तादृशसमस्या नास्ति परन्तु सः तादृशं समस्यां तत्र प्रकल्पयति इदानीं ज्ञानादिकरणम् आत्मा इति तथा उक्तम् इदानीं सः वदति इह नाम अस्मिन् अस्मिन् ग्रन्थे अथवा अस्यां पङ्क्तौ ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानादिकरणमात्मा इति कथनं पूर्वोक्तरीत्या सम्बान्धविशेषसूचनाय एतत् किं तस्य वाक्यस्य कः अर्थः अथवा तत्र किं किम् अवगच्छति भगिनि ज्ञानस्य अधिकरणमस्ति आत्मा तदेव सम्यक् ओके इदानीं सः वदति अधिकरणम् इत्युक्ते ज्ञानस्य अत्र आधारादेभाव अस्ति वा आत्मा एव ज्ञानम् आधेय आधे आधारः आधारः अस्ति आधारः अस्ति आत्मा आदे तदपि सम्यक् तत्र अहं किं तत्र कुत्र गच्छामि इति चेत् सः तत्र किमपि तत्र नूतनं विषयम् अवतारयति नाम इन्द्रदा तत्र तत्र नूतनस्य विषयस्य प्र करोति नूतनं विषयं प्रवेशयति नूतनस्य विषयस्य भूमिका भूमिकाम् इव ददाति इदानीं नूतनं वसदः यः विषयाः ह्यं विषयं सः इदानीं विचारयितुम् इच्छति सः विषयः वर्तते भवतु कथां ज्ञानम् आत्मनि वर्तते कथम् आत्मा ज्ञानस्य अधिकरणम् इति तत्र सम्बन्धः कः इत्यादिकं सः एतत् इदानीं वक्तुम् इच्छति परन्तु कथाम् अयं विषयः अत्र सम्बन् सम्बद्धः का अत्र सङ्गतिः नाम का तत्र कनेक्षन् वर्तते इति तत्र अवतारयितुम् इति प्रदर्शयितुं सः वदति अस्मिन् अस्यां पङ्क्तौ ज्ञानाधिकरणम् आत्मा इति अस्यां पङ्क्तौ वस्तुतः अस्माकं ग्रन्थक्रीत् तर्कसङ्ग्रहग्रन्थक्रीत् केवलं ज्ञानवान् आत्मा इति वक्तुं शक्नुयात् इति वक्तुं शक्नोति यथा प्राक् गन्धवती पृथिवी इति उक्तवान् तथा किमार्थम् अत्र ज्ञानवान् आत्मा इति न वदति इति तथा न वाक्चि किम् अर्थं किम् अर्थं तत्र दीर्घं मार्गं स्वीकरोति ज्ञानादिकरणात्मा ज्ञानादिकरणं ज्ञानवान् इति स्थाने ज्ञानादिकरणम् इति किमर्थं वदति आत्मा सर्वज्ञः परमात्मा सर्वज्ञ इति कारणतः वा न केवलं भवतु तथापि कथञ्चित् स्यात् परन्तु सः किं वदति ओके भवतु किमर्थम् एतत् दीर्घं दीर्घं वाक्यं तत्र उपस्थापितं तस्य दीर्घस्य वाक्यस्य काचन अस्ति किञ्चन अस्ति प्रयोजनं नाम किं किमपि किमपि अधिकम् आर्थं सूचयितुं दीर्घः अपि जीर्घः अपि समासः अथवा जीर्घ जीर्घः अपि शाब्दः प्रयुक्तः तत्र कश्चन गूढः निगूढः आर्थः अस्ति इति सूचयितुं क्रन्तक्रिता तादृशः जीर्घः शाब्दः प्रयुक्तः सः निगूढः आर्थः इति चेत् तत्र भवतु तदपि सर्वं स्यात् सर्वं स्यात् परन्तु अस्माकं ग्रन्थक्रिय अस्माकं देवदत्तः किं वदति केवलं सम्बन्धविशेषसूचनाय तत्र कश्चन सम्बन्धविशेषः अभिप्रेतः सम्बन्धविशेषः इष्टः सम्बन्धविशेषः कश्चन न न न केनापि सम्बन्धेन ज्ञानवान् आत्मा भवति परन्तु केनचित् विशिष्टेन स्पेसिफिक् सम्बन्धेन एव यः ज्ञानवान् स एव आत्मा न तु अन्यः सम्बन्धविशेषसूचना तु टु शो टु इण्डिकेट् तत् स्पेसिफिक् संबंध, यत् विशिष्टः कश्चन सम्बन्धः अत्र अभिप्रेतः आम् यः ज्ञानवान् स एव आत्मा इति तथा किमार्थं किमार्थं तथा सम्यक् न भवति नाम तत् सूचयितुं भवतु इदानीं पश्यामः तदेव पश्यामः सम्यक् इदानीं तथा चिन्तयामः एतावता इदानीं तथा स्वीकुर्मः एतत् अभ्युपेच्य अग्रे गच्छामः यः ज्ञानवान् सः एव आत्मा भवतु तथा वदामः चेत् कः दोषः तत्र स्यात् भवतु कः दोषः तथा भवितुं शक्नुयात् शक्नोति इति चेत् तर्हि तत्र तत्र पश्यामः कालनिरूपणे दार्शितरीत्या सर्वेऽपि पदार्थाः कालिकसम्बन्धेन महाकाले तदुपादौ च वर्तन्ते भगिनि एतत् किं महोदय कालिकनिरूपणे कालिकसम्बन्धे कालिकसम्बन्धे महाकाले तद् उपादौ उपादौ इत्युक्ते तस्य उप उपयोजनं पदार्थस्य उपाधौ वर्तन्ते यदा दर्शितं कालनिरूपणे इन् दोर्स् आफ् टैम् कालनिरूपणेदार्थ कालपदार्थनिरूपणे इदानीं प्राक् यदा भगिनि तत्र न न आसीत् तथा काल इति पदार्थः अपि च दिक् इति पदार्थद्वयम् अस्माभिः दृष्टम् इदानीम् अनयोः एकः वर्तते कालः तत्र कालः पदार्थः यथा अस्माभिः दृष्टः तत्र तथापि कश्चन नूतनसम्बन्धः अस्माभिः दृष्टः कालिकसम्बन्धः तत् जानाति वा भगिनि कालिकसम्बन्धः आं कालिकसम्बन्धे अहम् आसम् महोदय क्षम्यतां भवतु इदानीं वस्तुतः सम्यक् भवतु सम्यक् क्षम्यतां भवतु कालिकसम्बन्धः इदानीं कालिकसम्बन्धेन अस्माभिः उक्तं खलु सर्वं सर्वः लोकः कालिकसम्बन्धेन महाकाले अस्ति अस्ति वा आम् आम् आम् तर्हि तथा वदामः चेत् किं ज्ञानं कालिकसम्बन्धेन कुत्र स्यात् <स्था> <निस्मृत्त तुम्ति माँगे। स्था> इदानीमेव साक्षात् एव उक्तं कालिक सार्वं यत् किमपि यत् कोऽपि पदार्थः अहं कार्य तथा एव महाकाले आत्म कृते तु कालस्य निरूपणं कर्तुं न शक्नुमः खलु किम वा तथा एव आत्मा महाकाले वा तत्र अन्यः तत्र दृष्टः हा नित्यं नित्यम् एव अस्ति नित्यमेव अस्ति नित्यं नित्यमस्ति खलु नित्यम् अस्ति खलु अतः एव अस्माभिः उक्तं भवतु कालिकेन तत्र भगिनी प्राक् एव तत्र केचन केचन नियमाः आम् केचन नियमः तत् पेज् चत्वारः नियमः प्रस्थापितः भवतु भगिनी तत् वदति यत् आत्मा आत्मा नित्यपदार्थः सन् महाकाले कालिकसम्बन्धेन नास्ति भवतु तत्तु ज्ञानं ज्ञानं ज्ञानं तु नित्यं नास्ति वर्तते महाकाले महाकाले महाकालः अपि ज्ञानवान् अस्ति अथवा ज्ञानादिकरणम् अस्ति सम्यक् वा महा पुनरपि एकवारं महोदय महाकालः ज्ञानवान् अस्ति अथवा भवतु ज्ञानाधिकरणं अस्ति तदपि समीचीनं विपरीतरीत्या वक्तुं शक्नुमः तदेव अतः एव अतः एव स एव दोषः तत्र प्रदर्शितः इदानीं यदि यदि वदामः यः कोऽपि यः यः यः यो यो ज्ञानवान् सा आत्मा तथा वदामः चेत् तर्हि तत्र अतिव्याप्तिः दोषः एव अस्ति यतोहि यः एव ज्ञानवान् सः न केवलम् आत्मा महाकालः अपि ज्ञानवान् अस्ति सम्यक् यः ज्ञानवान् सः एव आत्मा इति उक्तवान् तर्हि महाकालः अपि आत्मा हा न तथा न अतः एव यदि तथा वदामः न महाकालः आत्मा नास्ति अतः एव इदानीम् अतः एव एषा दोषाय एव भवति नाम दुष्टा एव इयम् उक्तिः यदि यदि केवलं यः गुणव यः सः आत्मा यदि ज्ञानवान् इति एतावता आत्म आत्मानः आत्मनः लक्षणं स्यात् तर्हि एतद् लक्षणम् अतिव्याप्तं भविष्यति यतोहि एतद् लक्षणं न केवलम् आत्मनि अन्वेति परन्तु महाकाले अपि न अन्वेति अवगच्छति वा आम् आं महोदय उपादौ इति तत्र अस्माभिः अपि उक्तम् इदानीं इदानीमपि मया तत्र किञ्चित् तत्र सूचितं यत् इदानीं कालः अथवा दीक् वा तस्य किमपि तत्र साक्षात् कालं वा साक्षात् दिशं वा अस्माभिः तत्र अनुभवः अथवा अनुभवितुं वयं कदापि न न परन्तु तत् उपाधिम् आश्रित्य कालस्य अपि दिश दिश दिशः अपि अस्माकम् अनुभवः भवितुम् अर्हति इदानीं यथा कमपि क्रियाम् आश्रित्य वस्तुतः तत्र कालसमये अस्माभिः उक्तं क्रिया क्रियासमयतः या वा काचन क्रिया क्रियते तत्र काचन क्रिया समाप्ता जाता तावान् तावान् परिमितं तावान् परिमितः कालः अस्माभिः अपि अवगन्तुं शक्यः अत एव क्रिया यद्यपि साक्षात् कालः नास्ति परन्तु कालस्य उपादित्वेन किं तत्र ह्य सेकेण्डरि मार्क् संथिङ्ग् लैक् दिस् तत्र कश्चन अनुवादः नाम उपाधि क्रिया साक्षात् कालः नास्ति इदानीं क्रियाः क्रिया इण्डिकेट् कर्तुं शक्नुमः तत् इण्डिकेट् कर्तुं शक्नोति तदेव आम् इदानीं क्रिया साक्षात् लक्षणं लाक्षणत्वेन स्वीकर्तुं न शक्यते परन्तु उपाधित्वेन स्वीकर्तुं शक्यते इण्डिकेट् कर्तुं शक्नोति भवतु इदानीं सः तत् अत्र अत्र इदानीं किं जातं भवतु यदपि वस्तुतः ज्ञानादिकरणम् आत्मा इति तथा उक्त्वा तादृशः अपि दोषः तादृशः अपि दोषः अन्वेति नाम ज्ञानादिकरणं महाकावः अपि अतः एव इदानीम् अनेन वदनेन किमपि साक्षात् तत्र तादृशः दोषः तथापि इदानीं ज्ञानवान् इति स्थाने इति वदति किमार्थम् तत्र कश्चन विशिष्टः सम्बन्धः अभिप्रेतः इति सूचयितुम् आचार्यः ज्ञानाधिकरणम् इति उक्तवान् न तु ज्ञानवान् ओके तत्र एकपदस्य अर्थं न अवगतं तत्रापि चात् मध्ये अस्माकं नरसिंहमोदुण्ड्लि नाम तत्र किं पतनं ग्रहणं तत्र शिष्यानं केचन गुणाः सन्ति भवतु ग्रहणं नाम ग्रहणशक्तिः वा तथा ग्रहणं नाम ग्रास्पिङ्ग् आम् इदानीं दार्ज्यं दरिद्रं किमपि दुरिद्रं वा स्पष्टीकरणार्थं स्पष्टीकरण सम्यक् अवगमनार्थं ग्रहणदार्द्यायणदार्ज्यार्थं यथा ग्रहणं यथा अवगमनं दृढं तदेव तर्हि तर्हि किम् अग्रे एव पठामः इति मन्ये भवतु तर्हि नीलां भगिनी पतति वा धन्यवादः महोदय अस्तु महोदय पठामि बुद्धिः सुखं दुःखम् इच्छा द्वेष प्रयत्नः धर्मः पुण्यम् अधर्मम् अधर्मः पापं भावनाख्यसंस्कारः इत्येवं नवपदार्थाः आत्मनः विशेषगुणाः विशेषगुणः तद् द्रव्यं द्रव्यमात्रवृत्तिः द्रव्य भवति यथा उष्णस्पर्शः तेजसः विशेषगुणः गन्धपृथिव्याः विशेषगुणः तथा बुद्ध्या यादयः नव आत्मनः गुणाः तेषु अन्यत् अन्तिमाः त्रयः न मनसाः गृह्यन्ति अतः ते अतीन्द्रियाः तथापि वक्ष्यमाणप्रकारेण पृष्टवान् व्यापार रूप, रूपत्वेन कल्पिताः अतः सर्वे आत्मनः विशेषगुणाः भवन्ति तेषाम् आश्रयः गुणी आत्मा गुणगुणिनोः समवाय प्रागुक्तः अतः ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तते एवं घटो द्रव्यमिति एकं ज्ञानं स्वीकृतम् अस्य ज्ञानस्य विषयः घटः घटे ज्ञानस्य विषयता वर्तते अतः तद् ज्ञानं विषयतासम्बन्धेन घटे वर्तते hmm, अस्मिन् परिच्छेदे तत्र <coughs> आत्मा इति यः पदार्थः तत्र mm -hmm. तस्य निरूपणम् अत्र अस्ति अत्र नव तत्र विशेषगुणाः अत्र लिखितमस्ति एकमस्ति बुद्धिः सुखं दुःखम् इच्छा द्वेष प्रयत्न धर्मपुण्यः अधर्मः पापम् अपि च अन्तिमम् अस्ति भाव भावनाख्यसंस्कारः एते नवपदार्थाः आत्मनः विशेषगुणाः इत्युक्ते आत्मा यः तत्र द्रव्यमस्ति तस्य एकमेव गुणः नास्ति तत्र विशेष नवगुणाः तत्र आत्मायां तत्र वर्तन्ते विशेषगुण mm -hmm. तद् द्रव्यं द्रव्यमात्रवृत्तिः भवति इति एकं द्रव्यम् अस्ति सो अत्र विशेषगुणः तद् द्रव्यमात्रवृत्तिः भवति इति लिखितमस्ति सो mm -hmm. अत्र नव विशेषगुणाः यथा उष्णस्पर्शः तेजस् विशेषगुणः mm -hmm. mm -hmm. तत्र दृष्टः तत्र ता तेजस् विषये तेजः विषये तत्र उष्णस्पर्शः इति तत्र स्पर्शवान् अपि च ऊष्णयः अस्ति सः तेजस् इति तस्य विशेषगुणः अस्ति तस्य पदार्थस्य गन्धः पृथ्व्याः विशेषगुणः गन्धवती पृथ्वी वयं दृष्टवन्तः तत्र पृथ्व्याः गुणः गन्धम् इति तत्र अस्ति तथा बुद्ध बुद्धयाद् बुद्ध्यादयः नव आत्मनः गुणः इत्युक्ते अत्र अस्तु अत्र आत्मनः ये गुणाः अत्र अस्मिन् ग्रन्थे ते बुद्ध्यादयः इत्युक्ते तत्र अनुभवेन एतत् सर्वे गुणाः वयं तेषां परिशीलनं कर्तुं शक्यते अतः ते, ते, ते नव आत्मनाः गुणाः बुद्ध्यादेयः तेषु अन्तिमाः त्रयः न मनसा गृह्यन्ति ये अन्तिम त्रयः गुणाः इत्युक्ते तत्र धर्मपुण्यम् अधर्मपापम् अपि च भावनाख्यसंस्कारः mm. एते त्रयः गुणः मनसा गृह्यन्ते इत्युक्ते मनसा इति अतीन्द्रियः अस्ति अतः ते अपि mm. अतीन्द्रियाः mm. तथापि वक्ष्यमाणप्रकार प्रकारेण भवतु अवगन्तुं न शक्नुमः तत्र व्यापारः नाम किं केवलं तत्र वक्ष्यमानप्रकारेण अग्रे सः साक्षात् स्वयमेव वक्ष्यति किमार्थम् एते त्र त्रयाः यद्यापि अतीन्द्रियाः तथापि अपेक्षिताः एव सन्ति अपि च न साक्षात् अपेक्षितः परन्तु व्यापारत्वेन स्वीकृत्य व्यापारः नाम किम् इत्यादिकं सर्वं पश्यामः अग्रे अतः सर्वे आत्मनः विशेषगुणाः भवन्ति इत्युक्ते नवविशेष आत्म आत्मनः गुणाः तत्र अस्मिन् ग्रन्थे भवन्ति तेषाम् आश्रये एतावता पुनरकवारं विशेषगुणः इदानीं किं नाम विशेषगुणः परिभाषिकः वर्तते शब्दः विशेषगुणः अवगच्छति विशेषगुणः नाम किं ये भवति येन वयं ज्ञातुं शक्यते तदपि अपि च वयं तु जानीमः न्यायशास्त्रे न्यायवैशेषिकशास्त्रे गुणः इति साक्षात् अपि कश्चन पदार्थः वर्तते यथा द्रव्यम् इति एकं पदार्थम् एकः पदार्थः क्षम्यतां तथापि गुणः अत एव विशेषगुणः नाम ता तादृशः गुणाः विशेषगुणाः उच्यते यः केवलम् एकस्मिन् एव एक द्रव्ये वर्तितुं शक्नोति भवितुं शक्नोति उदाहरणार्थं गुण्ढः नाम गुणभूतः गन्धपदार्थः केवलं के पृथिव्यां वर्तते नाम केवलं पृथिव्यां भवितुम् अर्हति hmm. अत एव गन्धः पृथिव्याः विशेषगुणः इति उच्यते hmm. अपि च लक्षणं भवतु लक्षणं भवतु सम्यक् लक्षणम् अपि सम्यक् समीचीनं लक्षणमपि तत् वक्तुं शक्यते परं तत्र विशेषं यतोहि लक्षणं न सर्वदा तत्र गुणः उपयुज्य भवतु परन्तु सम्यक् लक्षणमपि भवितुम् अर्हति सम्यक् अतः एव इमे नवगुणाः ये ते आत्मविशेषगुणाः सन्ति आत्मविशेषगुणः नाम केव आत्मनि अस्ति तत्र सन्ति तिष्ठन्ति न कदापि जले वा तेजसि वा मानसि कुत्रापि न केवलम् आत्मनि इमे न सन्ति ओके इदानीं विशेषगुणाः अनन्तरं तेषाम् आश्रयः गुणी आत्मा इत्युक्ते एतेषु नव आ, ये गुणाः तत्र भवन्ति तेषाम् आश्रयः गुणि आत्मा इत्युक्ते आत्मायां तेषाम् आश्रयः वर्दते mm -hmm. गुणि आत्मा गुणगुणिनो समवायः प्रागुक्तं वयं जानीमः तत्र समवायसम्बन्धः गुणगुणिनो मध्ये यः सम्बन्धः समवायसम्बन्धः अत्रापि आपिच विशेष विशेषगुणाः ये नवविशेषगुणाः तेषां मध्ये समवायः इति सम्बन्धः वर्तन्ते इति प्रागुक्तम् अतः mm -hmm. ज्ञान ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तते ज्ञानम् ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तन्ते वर्तन वर्तते अत्र ज्ञानं किमर्थं लिखितम् अस्ति महोदय नाम कश्चन गुणः वर्तते तत्र भवतु वसतः इति उक्तं परन्तु तत्र तत्र परिगणनम् अदौ कृतः नाम दत्तं वर्तते तत्र प्रथमः गुणः बुद्धिः इति उक्तः वसतः बुद्धिः अपरपर्यायः वर्तते ज्ञानं ज्ञानजनकशब्दः जनक न तत्र केवलम् इदानीं भगिन्याः भगिन्या यः परिच्छेदः तत्र पतितः तत्र आदौ नव विशेषगुणाः परिगणिताः बुद्धिः सुखं दुःखम् इति इत्यादयः नव तत्र नवगुणेषु प्रथमः गुणः यः बुद्धिः इची, इची आमां सत्यं तस्य अन्यनामः इति व्यवहारे ज्ञानम् इति अपि उक्तं कुत्र अतः ज्ञानम् आत्मनि समवायसम्बन्धेन वर्तते अस्तु तथैव सुखं आत्मनि समवायसम्बन्धेन वर्तते दुःखं च इच्छा च तथैव महोदय अस्तु एवं घटो द्रव्यम् इति एक एकं ज्ञानं स्वीकृतं घटः एकं द्रव्यम् अस्ति इति वयं ज्ञानमपि अस्ति इति वयं स्वीकृतम् अस्य ज्ञानस्य विषयः घटः इत्युक्ते घटः वर्तते इति यः ज्ञानम् अस्ति तस्य विषयः घटः एव घटे ज्ञानस्य विषयता वर्तते तत्र <totra> ज्ञानस्य कृते यः विषयः सः इदानीम् अस्मिन् उदाहरणे घटः अस्ति अतः घटे ज्ञानस्य वर्तते अतः तद् ज्ञानं विषयतासम्बन्धेन घटे वर्तते सो तत्र तयोः मध्ये यः सम्बन्धः सः विषयतासम्बन्धः विषयता एतत् अपि वक्तुं शक्यते ज्ञानं घटे विषयतासम्बन्धेन वर्तते नाम घटः अपि ज्ञानवान् विषयतासम्बन्धेन तथैव इदानीं सः तत्र त्रयः तत्र तेन नाम त्रीणि स्थलानि तेन त्रीणि स्थलानि प्रदर्शितानि यत्र ज्ञानवान् इति प्रयोगः समीचीनः एव भवति इदानीं यथा प्राक् ज्ञानवान् महाकालिक महाकालिकसम्बन्धेन ज्ञानवान् महाकालः एव वर्तते अतः एव महाकालः ज्ञानवा ज्ञानवान् समीचीनः एव प्रयोगः अपि च आत्मा ज्ञानवान् समवायसम्बन्धेन आत्मा ज्ञानवान् स प्रयोगः अपि समीचीनः तथा एव घटः ज्ञानवान् तथापि वक्तुं शक्यते केन सम्बन्धेन घटः ज्ञानवान् विषयता सम्बन्धेन अतः तत्र अतिव्याप्तिदोषः हा तदेव अतः एव ज्ञानवान् तदेव तदेव तदेव हा सम्यक् समीचीनं सम्यक् प्रतिपादितवती इदानीम् अग्रे गच्छामः तदेव स विषय अत्र महोदय कृपया पतति वा हरि ओम् पठामि वा क्षम्यतां शेस्रन्मूर्ति महोदय कृपया अस्तु आचार्य एवं च एतस्यैव ज्ञानस्य त्रयः सम्बन्धाः आगताः कालिक आद्यः समवायः विषयता च कालिक आद्यः समवायविषयता च hmm. अत्र चतुर्विध चतुर्विधम् उक्तं प्राग् त्रयः सम्बन्धः चतुर्विधेन फस्ट् कालिका भवतु नोक्तं तथा ते गच्छामः आदित्र गृहीत्वा चतुर्विधं भवते, कालिका लक्षणम् आद्यः इति स्वीकुर्मः त्रयः त्रयसम्बन्धः आगतः कालिका, समवायः च hmm. तत्तत् सम्बन्ध अविच्छिन्नाध्येतानिरूपित इति सह क्रमेण काले आत्मनि गते च वर्तन्ते hmm. तत्सम्बन्ध अविच्छिन्न अध्येतानिरूपित अधिकारनता तिस्रः क्रमेण काले आत्मनि घटे च वर्तन्ते तासु अधिकरणात् अधिकरणतासु या द्वितीया अधिकरणता ज्ञानत्वज्ञानत्वाय सम्बन्ध अविच्छिन्न ज्ञाननिष्ठता निरूपिताधिकरणता सा आत्मलक्षणो प्रविष्टा इति प्रविष्टा इति सूचनाय ज्ञान ज्ञानवानात्मा इत्युक्तवान् ज्ञानाधिकरणमात्मा इत्युक्तं अत्र सम्बन्धत्रयः अस्ति आल्दि एतत् सर्वे क्रमेण काले आत्मनि घटे च अपि वर्तते तासु अधि अधिकर्णतासु ता द्वितीया अधिकर्णता ज्ञानत्वा आवच्छिन् समवायसम्बन्धा आगच्छिन् ज्ञाननिश्चाधयता निरूपिताधिकार सा आत्मलक्षणे प्रविष्ट इति सूचनाय प्रविष्टन् प्रविष्टन् एंतरिं, आत्मा न तत्र आत्मा इति चिह्नः परन्तु आत्मलक्षणे नाम स्वीकृतं गृहीतं नाम यथा तत्र किं ज्ञानाधिकरणम् आत्मा ज्ञानाधिकरणम् इति आत्मनः लक्षणम् यत् अस्मिन् लक्षणे ज्ञानाधिकरणम् इति उक्तम् अथवा तत्र ज्ञानादिक तत्र आत्मनः लाक्षणं तत्र निरूपयितुम् इति सूचनायुक्त्वा ज्ञानाधिकारम् हा सम्यक् तर्हि महोदय पुनरेकवारं तत्र किं अस्मिन् वस्तुतः सर्वस्मिन् परिच्छेदि न केवलं भवता यत् पतितं परन्तु इदानीम् अस्माभिः यत् तत्र अस्मिन् पृष्ठे यत् लिखितं ज्ञानवान् इति अनुक्त्वा ज्ञानादिकरणम् इति कुतः उक्तं तस्य इदानीम् अर्थः अर्थसारः अथवा यः प्रश्नः तत्र कृतः कृपया आं मन्ये आत्मनि ज्ञानस्य सम्बन्धः त्रिविधा अस्ति कालिका समवाय विषयता तत्सम्बन्ध अवच्छिन्नादेतानि कृता अधिकं गतवान् तिस्रक्रमेण काले कालज्ञानम् आत्मज्ञानं घटस्य ज्ञानम् एतत्प्रकारेण तिस्रम् आत्मनि वर्तते प्रविशते किमपि पृच्छामः सम्यक् अस्ति तासु अधिकरणतासु अधिकरणता मीन्स् द सीट् द देस् दि एनेटिङ्ग् सब्स्टेन्स् द्रव्य द्रव्य द्रव्यम् अधिकरणं अस्ति तत् आत्मा तत् आत्मा एतत् सर्वे अधिकर्णता भवति द्वितीया अधिकर्णता ज्ञानत्वावच्छिन्ना समवायसम्बन्धावच्छिन्ना ज्ञाननिस्ताधेयता तद् डिफ़्रेण्ट् टैप्स् आफ् लैक् प्राग्भागे घटस्य विषये अनेकानि सम्बन्धानि दृष्टवन्तः सर्वे ता तावदेव अत्र तिस्रमवायसम्बन्ध समवायसम्बन्धरूपेण यत्कालम् आत्मा घटेत् सर्वं आत्मा अधिकरण अधिकरणे भवन्ति अत्र प्रविष्टपदं फस्ट् देव् इल् एन्टर् इन् टु द मैण्ड् Then from देन् फ्रोम् वेरिट् एन् इ् इस् it यूस् required वर् रिक्वैर्ड् यत्र कुत्रापि तस्य आवश्यकं भवति आत्म तद् ज्ञानं प्रसादयितुं अधिकरणतरूपेण प्रवर्तते यत्कारणेन समवायसम्बन्ध अविच्छिन्न अविच्छिन्न निष्ठा निरूपिता निरूपित अधिकरणता सा आत्मलक्ष्मणे प्रविष्टा इति सूचनाय ज्ञान ज्ञानवादात्मा इत्युक्ता ज्ञानाधिकरणमात्मा इत्युक्तम् आं भवतु सम्यक् केवलं तत्र भि तत्र भिन्नं भिन्नं सम्बन्धं सम्बन्धं स्वीकृत्य तत्र कालः न ज्ञानं भिन्नेषु अधिकरणेषु एव स्थातुं शक्नोति अथवा तिष्ठति एव इदानीं समवायसम्बन्धेन इति चेत् ज्ञानम् आत्मनि तिष्ठति किं विषयतासम्बन्धेन इति चेत् घटे अपि ज्ञानं भवितुम् अर्हति अपि च महाकालिकसम्बन्धेन महाकाले एव अस्ति अतः एव इदानीं एकम् एव ज्ञानं त्रिषु एव त्रिषु एव अधिकरणेषु साक्षात् स्थातुम् अर्हति वस्तुतः अथवा साक्षात् एव तिष्ठति अत एव ज्ञानवान् आत्मा अथवा ज्ञानवान् अपि च वस्तुतः ज्ञानादिकरणम् इति तथापि वदामः चेत् उभयत्रा अतिव्याप्तिदोषः प्र प्राप्तः एव भविष्यति परन्तु इदानीं सः किं वदति अस्माकं अस्माकं व्याख्याता सः वदति तत्र मूलग्रन्थकृत् तर्कसङ्ग्रहग्रन्थ वयं पठामः ज्ञातुं शक्नुमः तदेव इदानीम् अतः सः वदति किम् अस्माकं तर्कसङ्ग्रहग्रन्थकृत् अन्नं भक्तः तत्र ज्ञानवान् इति किमर्थं नो इति चेत् तत्र सः सू इच्छति स्म यत् अत्र न केवलम् ज्ञान ज्ञानाधिकरणम् अभिप्रेतम् न केवलम् यत्र कुत्रापि ज्ञानम् तत्सर्वम् आत्मा इति तादृशः अर्थः न स्वीकर्तव्यः परन्तु तत्र कञ्चन विशिष्टम् सम्बन्धम् आश्रित्य एव ज्ञानवत्वम् अथवा ज्ञानाधिकरणत्वम् आत्मनः लाक्षणम् भवितुम् शक्नोति कोऽयं सम्बन्धः इति चेत् समवायसम्बन्धः एव अतः एव इदानीम् उपयुक्तलाघवम् अपि अस्ति अपि अर्थवान् आचार्य किं कीदृशं लाघवं अत्र आत्मलक्षणेश विशेषं uh, सूचयति एतत् mm. वाक्यानि इति uh. भवन्तं तदर्थं यद् ज्ञानं प्रविशति तत्र तिष्ठति mm. तद् ज्ञान उपयोगं कृत्वा तद् ज्ञान ज्ञानं गृहीत्वा प्राप्तु इति भवतु किमर्थं न तथापि स्यात् परन्तु अत्र केवलम् एतावता उक्तं भवतु नाम तदपि स सङ्गच्छते एव यद् भवता उक्तं तत् समीचीनं भाति इति मन्ये भवतु तर्हि किञ्चित् अग्रे पठामः यतोहि समयः अस्ति एव अतः एव किञ्चित् अग्रे गच्छामः अत्र भवतु सुप्तिललान्तिका नाम कश्चन प्रसाङ्गः सुप्तिललान्ति तत्र वृत्तिनियामकत्वं वृत्ति अनियामकत्वम् इति कश्चन नूतनः विचारः तत्र क्रियते भवतु तर्हि से सर्वन्यवादः पुनरेकवारं तत्र अपार्णा भगिनी पतति वा हरि हरि ओम् हरि ओं महोदय श्रूयते वा मम सम्पर्कः न सम्यक् श्रूयते कृपया सूक्तिलन्तिका सम्बन्धानां वृत्तिनियमा नियमाकत्वं वृत्तिनियमाकत्वाभावः च अत्र तृतीयाधिकरणतावर्णाय तावर्णनाय विषयतासम्बन्धेन ज्ञानं गटे वर्तते इति उक्तम् अत्र तृतीयादिकरणतावर्णाय विषयतासम्बन्धेन ज्ञानं गटे वर्तते इति उक्तम् विषयेऽस्मिन् किञ्चित् विचार्यते घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः एतादृशप्रत्ययबलात् आधाराधेयभावः सिध्यति इति ग्रन्थादौ उपपादितम् तत्र घटः भारम् निदघाति भूतलम् भारं वहति इति अपि उक्तम् भारभारवहनालोचना अधिकरणता तादृशभारानिदान आलोचना भारनिदान आलोचना आधेयता इति अपि प्राक् hmm. एतस्मिन् परिच्छेदे प्रथमकक्षायां यत् पठितवन्तौ पठितवन्तः तदेव विपरी किञ्चित् भिन्नरीत्या भिन्नशब्दप्रयोगम् उपयुज्य उक्तवन्तः mm -hmm. सम्बन्धानां वृत्तिनियमाकत्वं वृत्तिनियामकत्वाभावः च प्रायेणे mm -hmm. नूतन नूतनविषयः संग्रहे अत्र mm -hmm. तृतीयादिकरणतावर्णनाय तृतीय अधि तृतीय तृतीय अधिकरणतावरणाय विषयतासम्बन्धेन ज्ञानं पूर्वमेव उक्तं विषयतासम्बन्धेन एव ज्ञानं घटे वर्तते mm -hmm. विषये अस् विषयेऽस्मिन् किञ्चित् विचार्यते घटः भूतले वर्तते कथं वर्तते संयोगसम्बन्धेन वर्तते mm -hmm. अ अस्ति एक ए, ए अत्र प्रत्ययः एतादृशरूपेण एतादृशप्रत्ययबलात् एतादृश चर्चात् एतादृशचर्चात् आधार आधेयभावः सिद्ध्यति भूतले गटे वर्तते अथवा मनसि चिन्तनं वर्तते तादृश आधार आधेयभावः सिद्ध्यति ग्रन्थस्य mm. आदौ एव उपपादितं वयं दृष्टवन्तः तत्र घटः mm. भारं निदधाति ततः घटः भारम् उपस्थापयतिं ददाति भूतलं तु भारं स्वीकरोति तत् भारं बेस् बारं वहति इति अपि उक्तं भारवहन आलोचना यत् भारं स्वीकरोति अथवा यत् भारं नयति तस्य तादृश आलोचना अधिकरणता Mm -hmm. तादृशभारनिधन यद्भारं दधाति भारनिधन mm -hmm. आलोचना आदेत इति पूर्वम् एव उक्तं तदेव mm -hmm. पुनरपि लिखितम् अग्रे पठामि वा महोदय कृपया mm -hmm. पर, परन्तु एतादृश उपपादनं बालबोधबोधाय एव उपयुज्यते प्रथमकक्षा एव mm. एकं श्लोकं दृष्टवन्तः बाल बालबोधनाय एतत् सङ्ग्रहः भवति इति तस्मात् तादृश उदाहरणं बालबोधनाय स्वीकृतवन्तः यतोहि घटे रूपं समवायसम्बन्धेन वर्तते इति अपि अस्ति प्रत्ययः घटे रूपम् आम् घटः भूतले संयोगसम्बन्धेन भवति घटे रूपं समवायसम्बन्धेन वर्तते तेन, आप, बावह रूपं गुनह इती न आधार आदेय सिरंतु गुण तत्क्षम गुरु्य गुरु गुण्ध ना गुणभूते कतक्षम भवि कथम वट वहे अतः भारत हनम् इत्येतत् सर्वं बालबोधनाय एव ग्रन्थादौ लिखितं पूर्वं सरलरीत्या सर्वम् उक्त्वा इदानीं केवलं सरलार्थं तादृशमुक्तम् इति लिखितं ग्रन्थपुस्तके आं तदेव वसुतः तदेव आं तदेव तदेव भवतु तर्हि अग्रे अपि वस्तुतः इदम् अत्र वर्तते इति अस्मदीया प्रमा प्रामाणिकप्र प्रतीतिः एव आधार आधेयभावं साधयति न तु तत्र भारादिविचारः अपेक्षितः तस्मात् भारम् इति पदार्थ पदस्य विचारः अथवा वैट् तादृशं न कर्तुं न अपेक्षितः Uh, वस्तुतः इदम् अत्र वर्तते एषः अमुं विषयः अत्र वर्तते इति अवगमनार्थमेव uh, भारं भारवहनं बा, वा तादृशम् उपयुज्य उपयुज्य उप भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेय आधेर आध्येय आधारभावः सिद्ध्यति तद्वत् घटे रूपं वर्तते mm -hmm. आ, भूतले घटं वर्तते घटे रूपं वर्तते वायुस्पर्शः वर्तते आत्मनि ज्ञानादयः वर्तन्ते पटे द्रव्यत्वं वर्तते द्रव्यगुणकर्मसु mm -hmm. सत्ताजातिः वर्तते कपालयोः घटः वर्तते तन्तुषु पटः वर्तते सर्पे mm -hmm. क्रिया वर्तते कन्दुके उत्पतनं वर्तते परमान्वाकाशादौ विशेषः वर्तते इत्यादिभिः प्रतीतिभिः समवायसम्बन्धस्य यानि पञ्चयुगलानि गुणगुणिनौ अवय अवयवौ अवय अवय जातिव्यक्ति क्रियाक्रियवन्तौ विशेषनित्यद्रव्ये इत्येषु प्रथमस्य आधेयत्वं द्वितीयस्य अधिकरणत्वं च सिध्यति आम् mm -hmm. प्रथम कक्षा आरभ्य इदानीं पर्यन्तं सर्वे पदार्थाः वयम् आधार आधेयभावे आधार आधेयरीत्या दृष्टवन्तः तदेव mm. समरी ता एक एक एकपरिच्छेदे उक्तम् yeah. उदाहरणानि अपि उक्तं यत् कथं कपालयोः घटः वर्तते तन्तुषु पटः वर्तते उदाहरणानि अपि उक्तं तदनन्तरं सम्बन्धः अपि उक्तं गुणगुणिनौ अवयव अवयौ जातिव्यक्तिक्रियाक्रियवन्तौ विशेषण विशेषणनित्यद्रव्य इत्येषु तस्मात् सर्वसम्बन्धेषु एकः नित्यमस्ति तदेव अधिकरण अधिकरण आदे सिद्धयितुमेव तादृश उदाहरणं स्वीकृतम् आम् आम् तदेव वसुतः यथा उक्तं भवत्या वसदः इति अस्य सर्वस्य इदानीम् अभिप्रायः वर्तते वसुतः तत्र भारवहनं किमपि तथा यदुक्तं तत् केवलं बालबोधनाय अस्माकं सुखबोधनाय तथा उक्तं परन्तु तथा साक्षात् नास्ति वस्तुतः इदम् अत्र वर्तते भवतु इति तत्र कश्चन प्रचीचिः अस्ति तं प्रचीतिं कदामपि निरूपयितुं तत्र भार उदाहरणं दत्तं परन्तु तथा भारः कुत्रापि अप्रसक्तः केवलम् एतादृशः प्रचीचिः नाम अवगमनं ज्ञानं तादृशं वर्तते एव अत एव तथा एव नयिकैः उपस्थाप्यते ओके भवतु किञ्चित् युगलानि इति पदस्य अर्थः वदति वा पेयर् पेयर्हो महोदय अत्र यः पञ्चं लिखितमस्ति विशेषनित्यद्रव्ये अस्मिन् विषये किञ्चित् वदति वा महोदय विशेषनित्यद्रव्ये तत्र प्राक् अस्माभि पदार्थनिरूपणे समवायविशेषविशेष इति तत्र विशेषः इति कश्चन पदार्थः आसीत् तत्र तस्य निरूपणे अस्माभिः किमुक्तं यदि एकं शकलं वर्तते तस्य शकलस्य विभाजनं क्रियते चेत् इदानीं यावत् विभाजनं क्रियते यावत् तत्र एकः एकः परिमाणुः तिष्ठति यः वर्तते तत्र भवतु इदानीं पुनर्कवारं पुनर्कवारं वदामि इदानीं शकलद्वयं वर्तते चेत् तयो अथवा भवती वर्तते अस्ति वा अहम् अस्मि इच्छा अथवा भवत्याः शरीरं भवत्याः यत् य आत्मा तद् अवच्छेदिकं शरीरम् एकं वर्तते ममात्मा अवच्छेदिकं शरीरम् अपि किमपि अस्ति तयोः भेदः कथां सिद्ध्यति भवतु तत्र दर्शनेन सिध्यति साधु परन्तु तत्र वस्तुतः किं तत्र किं प्रोसेस् का प्रक्रिया क्रियते इति चेत् भवतु तत्र अवयवभेदः अवयवभेदेन अवयविनोः भेदः सिद्ध्यति तर्हि इदानीं यतोहि ब तत्र भवतात्मावच्छेदकं शरीरं यत् तत् तत्र अवयवानि मादात्मावच्छेदकशरीर शरीरात् भिद्यन्ते एव अतः एव अवयवि अवयवभेदात् अवयविनोः भेदः अपि सिध्यति इदानीं तथा अग्रे गच्छामः इदानीं तत्र पुनर् शकलद्वयं पश्यामः अथवा शरीरद्वयं पश्यामः तयोः भेदः इदानीं सर्वप्रथमम् अवयवभेदात् सिध्यति परन्तु यदि वयं तावान् तत्र अवयवानि अवयवानि स्वीकुर्मः यावन् एकम् अवयवम् अभिन्नम् एव तिष्ठति किम् एतत् अवयवम् इति चेत् किं तादृशम् अङ्गम् इति चेत् सः परमाणुः इति न्यायशास्त्रे तत्र व्यवह्रियते स्वीक्रियते एकं तत्र न्यायवैशेषिकशास्त्रे सविशेषम् एतादृशं परमाणुः इति कश्चित् तत्र द्राव्यविशेषः स्वीक्रियते भवतु तस्य द्रव्यविशेषस्य विशेषस्य कानि कानि लक्षणानि इति तत् अभिन्नं वर्तते एकं परमाणुरूपं नाम अत्यन्तम् अत्यन्तम् अल्परूपं परन्तु अत्यन्त अल्पं परिमाणं रूपं न अत्यन्तम् अल्पं परिमाणं परन्तु अभिन्नम् अपि वर्तते इदानीम् अभिन्नं तर्हि तथा परमाणुद्वयं स्वीकुर्मः चेत् यदि तयोः अवयव अवयवानि न सन्ति अथवा तयोः अवयवे न स्तः तर्हि तयोः भेदः कथां सिध्यति इति चेत् तत्र न्यायवैशेषिकशास्त्रे कश्चन अतिरिक्तः पदार्थः स्वीक्रियते विशेषरूपः विशेष आत्मः नाम विशेषनाम नामकः कश्चन भिन्नः पदार्थः स्वीक्रियते येन द्वयोः परमान्वोः यद्यपि तत्र अवयवाः अवयवाः एव न सन्ति तथापि द्वयोः परमान्वो परमान्वोः भेदः स्वीकर्तुं शक्यः नाम भेदः सिध्यति किमर्थं यतोहि विशेषः कश्चन पदार्थः तां वेदं साधयति भवतु नाम तर्हि इदानीम् अयं विशेषः कुत्र अस्ति परमाणुषु नाम परमाणवः अपि परमाणुषु अस्ति केन सम्बन्धेन इति चेत् समवायसम्बन्धेन अतः एव तत्र विशेष च नित्यद्रव्य नित्यद्रव्यं नाम तत्र परमाणु परमाणुरूपं परमाणुरूपं द्रव्यं तयोः विशेषपरमाणुरूपनित्यद्रव्ययोः सम्बन्धः कः इति चेत् समवायः इति नयायिकैः अङ्गीक्रियते तत्र उदाहरणे परमाणु अका किं कुत्र आम् परमाणुआकाशादयोः आदौ तत्र यतोहि तत्र लिस्ट् युगलानां परिगणनं यत् क्रियते तत्र लैन् फ्रोम् द बोतम् आफ् द पराग्राफ् परमाणु अकाशादौ विशेषः अत एव इदानीं परमाणु परमाणुषु विशेषु नीचद्रवेषु यतो हि तत्र सर्वेषु नीचद्रवेषु स एव प्रश्नः उदेशे नाम यदि आत्मा वर्तते आत्म आत्मनः तु यव नास्ति तर्हि द्वयोः आत्मनोः कथं भेदः यतो हि तत्र विशेषः कश्चन पदार्थः वर्तते उभयत्र यः तेषां भेदं साधयति इदानीं भगिनि तर्हि कृ कृपया पठतु अग्रिम एवं भूतले घटो नास्ति वायौ रूपं नास्ति परमाणौ महत्त्वं नास्ति रूपे गुरुत्वं नास्ति इत्यादिप्रत्यये तद् तद्भावस्य दे दैशिकविशेषणतासम्बन्धेन आदेयत्वं भूतल भूतलवायवादीनाम् अधिकरणत्वं च सिद्धं भवति एवमेव एव विषयत्वं कार्यत्वं कारणत्वम् इत्यादयः ये विषयाः एतत् शास, शास्त्रचर्चिताः तेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः दैशिकविशेषणतासम्बन्धेन स्वरूप स्वरूपापर परपरया पर, स्वरूपा, पर, अपरपर स्वरूप अपरपर्यायेन अपर आधार आधेयभावसिद्धिः अतः विषयत्वादीनाम् आधेयत्वं घट आदीनाम् अधिकरणत्वं ज्ञातव्यम् अत्र अभावस्य विषये अत्र लिखितमस्ति भूतले नास्ति इति एकं तत्र वाक्यमस्ति वायोरूपं नास्ति परमाणु महत्त्वं नास्ति परमाणु महत्त्वं नास्ति इत्युक्ते परं महत् परिमाणं वा महोदय परमाणु रूपे गुरुत्वं नास्ति इत्यादिप्रत्ययेः तत्तद्भावस्य दैशिकविशेषणतासम्बन्धेन अध्येयत्वं भूतलवायु वायु आदीनाम् अधिकरणत्वं च सिद्धं भवति इत्युक्ते अत्र यः ये वाक्यानि तत्र दत्तं तेषां विषये तत्र सम्बन्धः वदामः चेत् तत्र दैशिकविशेषणता इति तत्र प्रागुक्तं तेन सम्बन्धेन तत्र अधिकरणता अपि च आदेयता निरूपकं तत्र निरूपणं भवति mm. नाम भूतले गतो नास्ति इति चेत् तर्हि किं भूतले घटाभावः अस्ति घटाभावः केन ना सम्बन्धेन अस्ति अत्र दैशिकविशेषणतासम्बन्धेन अथवा स्वरूपसम्बन्धेन सः अग्रे वदति स्वरूपापारपर्याये अपरपर्याये दैशिकविशेषतासम्बन्धे न च सिद्धं एवमेव एव विषयत्वं कार्यत्वं कारणत्वम् इत्यादयः ये विषयाः एतत् शास्त्रीयशास्त्रचर्चिताः एवमेव एव विषयत्वं कार्यत्वम् अत्र किं वदनीयं विषयत्वं कार्यत्वं कारणत्वम् इत्यादयः ये विषयाः एते सर्वे विषयाः एव ज्ञानस्य विषयाः एतत् शास्त्रे चर्चिताः परन्तु अस्मिन् न्यायशास्त्रे ये विषयाः सब्जेक्ट्स् तत्र ज्ञानविषयाः अपि अथवा सब्जेक्ट्स् तथा एव स्वीकुर्मः किम् एतत् विषयत्वं कार्यत्वं कार्यकारणभावे जान्यजनकत्वं जनकत्वं जन्यत्वं कारणत्वम् इत्यादि विषयाः एतत् शास्त्रे चर्चिताः तेषामपि तत्र दैशिकविशेषणतासम्बन्धेन च स्वरूप अपरपर्यायेण आधार आधेयभावः सिद्धिः तत्र भवति नाम भवतु तत्र ज्ञानजनकशब्दप्रयोगः इति तथा किमपि उक्तं व्यवहारनिरूपणसमये तर्हि यदि शब्दप्रयोगे कारणत्वम् अस्ति केन सम्बन्धेन कारणत्वं शब्दप्रयोगे तिष्ठति इति चेत् तत्रापि स्वरूपसम्बन्धेन अथवा दैशिकविशेषणतासम्बन्धेन तेन एव तत्र आधारादेयभावः इति सिद्धिः भवति अतः आध्येयत्वं घटादीनाम् अधिकरणत्वं ज्ञातव्यम् तत्तु घटादीनाम् इत्युक्ते विषयः अस्ति तत्र आधेयत्वम् सिद्धिः भवति घटादीनाम् पदार्थः तत्र तस्मिन् अधिकरणत्वम् इति ज्ञातव्यम् इति अस्ति तद् यतो इदानीं ज्ञाननिरूपणसमये अस्माभिः किमुच्यते घटे विषयता वर्तते ज्ञाने विषयिता घटे विषयत्वं ज्ञाने विषयि तर्हि एतत् उभयं केन सम्बन्धेन तत्र अस्ति इति चेत् स्वरूपसम्बन्धेन तत्र समवायसम्बन्धः वा अन्यः कश्चन सम्बन्धः तत्र न शङ्कनीयः सम एव अस्ति येन इमे वस्तुतः तत्र सर्वे अग्रेपि ये तत्र प्यत्वम् अन्ये केऽपि तत् अत्र चार्चीयाः क्षम्यताम् अत्र शास्त्रीयाः विषयाः तत्र पदार्थेषु सन्ति भवतु तर्हि भगिनी अपि च तत्र शीघ्रम् अन्तिमं परीक्षा इदानीं समयः जातः इति मन्ये भवतु अत्र हस्तगयामः तर्हि भवतु तर्हि अमुं परिचयम् आगामि एव समर्पयामः ओके समीचीनं सञ्चिप्रश्नाः वा एतत् एतावता एतत् अवगतं अ, तदेव आम् भवतु तरही अग्रिमे सप्ताहे एव तत्र पठामः भवतु धन्यवादः नमस्कारः धन्यवादः हा कृपया भगिनि